तथापि परिभूयैनं प्रेक्षमाणो वृकोदरः राक्षसं भुङ्क्त एवान्नं पाण्डवः परवीरः अमर्षेण तु सम्पूर्णः कुन्तीपुत्रं वृकोदरं जघानपृष्ठे पाणिभ्यामुभाभ्यां पृष्ठतस्थितः तथा बलवता भीमः पाणिभ्यां भृशमाहतः नैवावलोकयामास राक्षसम् भुङ्क्त एव सः ततः स भूयः सङ्क्रुद्धो वृक्षमादाय राक्षसः ताडयिष्यंस्तदा भीमम् पुनरभ्यद्रवद्बली ततो भीमः शनैर्भुक्त्वा तदन्नं पुरुषर्षभः वार्युपस्पृश्य संहृष्टस्तस्थौ युधिमहाबलः क्षिप्तम् क्रुद्धेन तं वृक्षम् प्रतिजग्राहवीर्यवान् सव्येन पाणिना भीमः प्रहसन्निवभारत ततः स पुनरुद्यम्य बली प्राहिणोद्भीमसेनाय तस्मै पाण्डवः तद्वृक्षयुद्धमभवन्महीरुहविनाशनम् घोररूपं महाराजनरराक्षसराजयोः नाम विश्राव्यतुबकः भुजाभ्यां परिजग्राह भीमसेनं महाबलम् भीमसेनोऽपि तद्रक्षः परिरभ्यमहाभुजः विस्फुरन्तं महाबाहुं विचकर्षबलाद्बली सकृष्यमाणो भीमेन कर्षमाणश्च पाण्डवम् समयुज्यत तीव्रेण क्लमेन पुरुषादकः तयोर्वेगेन महता पृथिवी समकम्पत पादपांश्च महाकायांश्चूर्णयामास हीयम तो तद्रक्ष समीक्ष्य पुषादक निष्ष्य भूमौ जाभ्याद